गणेशपुराण क्रीडाखंडम अध्या नईटी फै कवाच षे वर्षे क्वजिद्यादो प्रवृत् क्वचिद्यादो बिशु उमल साधं चिक्रीडानेकुन तम विश्वकर्मा दिदृक्षुर्श्वर्मा यदिराग्य मानयामास चित्रासने समावेश्य पूजयामास सादरं प्रक्षाल्यचरणौ प्रादाद्गन्धं ताम्बूलमेव च तदस्तदादरं दृष्ट्वा विश्वकर्मा तुतोषः तुष्टावपरयाभक्रिया प्रणिपत्य शिवां मुदा विश्वकर्मोवाच ननामि विश्वेश्वरि विश्वरूपे ब्रह्मेन्द्र रुद्राद्र्यमविष्णुरूपे त्वया तदं विश्वमनन्दशक्तेर्ब्रह्मादिदेवैरभिनन्द्यरूपे त्वमेव विश्वं रजसा विधत्से सत्त्वेन माध त्वमेव सर्वं समसाधहंसि त्रैगुण्यमे दत्तव नित्यरूपं त्वया ह दातैत्यगणाविमुक्तिं ब्रह्मर्षयो ज्ञानबलात्प्रपन्नाः त्वमेव विष्णोरतुलासि शक्तिः सर्वस्य हेतुः परमासि माया सदोऽ सदो यापि परासि शक्तिश्चराचरं त्वं विदधासि विश्वं सं मोह्यलोकान् सकलान् सुरेशान् काष्ठकलाभिश्च ददासि भोगम् ये त्वां प्रपन्ना न भयम् तु तेषाम् मृत्योस्तदा दैत्यकृतं कदाचिद त्वमेव लक्ष्मी सुकृतमलक्षीर्दुष्टात्मनां त्वम् त्वं स्वरूपा विद्यास्वरूपासि जगत्रये प्रभास्वरूपा शशिसूर्ययोत्स्वम् य आश्रितास्ते जगदास्त्रयास्ते विपत्तिदेशो न च तेषु मातः त्वमेव विश्वेश्वरि विश्वमे दद्धरस्यथाप्याय शिवाजिरूपा अनादिमद्यानिधनाप्यगम्या फरीष्व लोकेश सुरेश्वराणां तेऽनुग्रहात्वा प्रभजन्ति भक्ता आनन्दरूपा निवसन्ति नाके अभक्ति कामान् विनिहंसि रुष्टा त्वामेव मादःशरणं प्रपन्नः धन्ये ममैते नयनेधविद्या जनिश्च मादा पितृवंश एव कुलं च धन्यं चरणौ त्वदीयौ दृष्टौ यदस्ते जगदम्बिके मया क उवाच स्तुदा जगन्मादा वरमस्मै न्यवेद यद संव्रे परमाभक्तिं सा स्तोत्रं तमब्रवीद इदं स्तोत्रम् पठेद्यस्तु सर्वान् सः सर्वत्र विजयम् पुष्टिम् भिद्यामायुत्सुखम् शिवम् शिवोवाच विश्वकर्म महाबुद्धे ज्ञानवानसि सर्वतः यच्च तं शिववाक्येन दृष्ठम् तत्सकलम् त्वयि सिन्धुना पीडिता देवा सर्वे कारागृहे स्थितः शिवश्चात्रसमायाधकैलासे दुहृते सति दण्डकारण्यदेशेऽत्र कोऽप्याप्तो न हि दृश्यते त्वं तु सम्यक् समायादो बहुकालेन दर्शनं विश्वकर्मो वाच किमाश्चर्यं जगन्मादर्बालो मातरमाव्रजे द्रष्टुं देवमहाभक्तो विद्याकामो गुरुं शिवे पुत्रस्य ते श्रुतो मादर्महिमा परमाद्भुतः तमहम् मायादो युवयोर्दर्शनोत्सुकः क उवाच एवम् तयोस्तु वदतो रागतो सौविनायकः रजसा रजसारुणविग्रहः प्रसन्नवदनो बालसमूहपरिवारितः तन्मध्यशोभदे स्मासौ मरुन्मध्ये यथा हरिः तं दृष्ट्वा प्रणिपत्यासौ कृताञ्जलिपुटस्थितः तुष्टावपरमात्मानं ज्ञात्वा तं गिरिजा सुदं विश्वकर्मो वाच नमामि परमात्मानं सच्चिदानन्दविग्रहं चराचरगुरुं सर्वकारणानां च कारणं गुणेशं च गुणातीतं सृष्टिस्थित्यन्धकारिणं सर्वव्यापिनमीशानं व्यक्तव्यक्तस्वरूपिणम् अगम्यं सर्वदेवानां मुनिहृत्पद्मवासिनम् सिद्धिबुद्धिपदिं नानाभक्तसिद्धिप्रदं विभुम् अभक्तकामदहनं सहस्रविसन्निभम् अनेकशक्तिसंयुक्तं दैत्यदानवमर्दनम् अनादिमव्ययं शान्तं जरामरणवर्जितं त्रितनुं चत्रयी मूलं ब्रह्मविष्णुशिवात्मिकं क उवाच एवं स्तुतिं समाकर्ण्य सन्तुष्टः स गुणेश्वरः स्वासनेत्तमुपावेश्य पूजयामास सादरं प्रक्षाल्यचरणौ गन्धमक्षदान् पुष्पमेव च धूपम् नैवेद्यं निवेद्य तमधा ब्रवीद गुणेश उवाच विश्वकर्म नागतोऽसि मम दर्शनकाङ्क्षया किमानीदं मम मुदे हयुपायनमनुत्तमं विश्वकर्मो वाच निजस्वानन्दपूर्णानां परवाञ्चा सर्वकृतां सर्वशक्तिमदामपि समलोष्टाश्महेम्नां च कल्पवृक्षाधरीकृतां कर्तुमकर्तुं शक्तानामन्यथा कर्तुमेव च स्वाधीनानां चतुष्टानां स्वसत्तावर्तिनामपि पराधीनैरशक्तैश्च किञ्चनैर्मर्त्यधर्मभिः किं देयं परितोषाय स्वशक्रिया किञ्चिदाहृदम् क उवाच एवमुक्त्वा विश्वकर्मस्थापयत्पुरदश्रुणिं पद्मं च परशुम्भाष्यं सहस्रादित्यसन्निभं सर्वशत्रुहरं तीक्ष्णं दधारसगुणेश्वरः उवाच विश्वकर्माणां कुदयेदानि विश्वकृत आनीतानि मम प्रीत्यै तद्वदस्वाधुनानख विश्वकर्मोवाच संज्ञा नामे दीनां नामे कन्या चारुस्वरूपिणी लज्जितो यन्मुखं वीक्ष्य सहसा शशलाञ्छनः रमा शची च सावित्री शारदारुन्धधीरधिः त्रिलोक्यां न यस्या गुणेश्वरा सा त्वये दत्ता त्रिवेदाय त्रिरूपिणे आगतेषु त्रिलोकेषु साङ्गोपाङ्गेषु सर्वशः महोत्सवो महानासीद्दिनाष्टकमहर्निशम् यां दृष्ट्वा स्खलिता देवा लज्जयाधो मुखागदाः सवितामधादाय ययौ स्वस्थानमुत्तमं त्यजसा तस्य तप्ता मे कन्यका कृषदामगाद सा तदो निर्ममे चायां संज्ञातुस्वप्रभावतः सर्वं तस्यै निवेद्यैव सद्यो मम गृहं गदा गदेकियदि कियदि काले सा छाया ज्ञादादुभानुना नेयं संज्ञेदि सप्राया गृहं सद्यो ममार्यमा ततोभिदा पुनः संज्ञा मामुवाच न माम् निवेदयरवेर्हस्ते तेजोऽहं न क्षमेस्य च ततः पित्राधिकृदा सा बहिरेव ययौ किल अश्विनीरूपमास्ताय गुप्तरूप वने वसद ततस्तु विश्वकर्मादामनवेक्ष्य क्वचिद् गृहे प्रोवाचार्यमणं शोध तेजस्ते सोधुमक्षमा गता नेतावी ची ते तेजसोभाो ते न्यून किंचिभ्य प्रकटी भूयाद्विहरस्वतस्थया रविवाचा यहा तव कर्तुम कर्तम्वसी उवाच विश्वकर्मा ततश्चैनं यन्द्रे स्थाप्योल्लिलेखः ते जीर्हासं चकाराशु किञ्चित् सौम्यो भवच्च सः यत्र गुप्ता भवत्संज्ञा तत्र यादोर्यमा विभुः अश्व सा नासा वसुत च तामादायार्यमालोकं निजं हर्षयुधो गमद विश्वकर्मो वाच तेजशेषेण तस्याधप्रबलेन गुणेश्वर निर्मितान्यायुधान्याशु त्वदर्थे जगदीश्वर अतितीक्ष्णानि सदा जयकराण्यपि चत्वारिदे प्रदत्तानि दत्ते चक्रगदेहरेः त्रिशूलशम्भवे दत्तसर्वशत्रुनिबर्हणः गुणेश उवाच सम्यक्कृतं विश्वकर्म नायुधानि शुभानि मे दत्तानि दैत्यनाशाय परोपकृतये सतां क उवाच यवमु स्वायुधान्याशुधार च दुधाव च तदा च कम्बे पृथिवी पर्वताश्च वनानि च शुशुभेशोऽपि दैः शस्त्राय कोडिसूर्यनिभैर्विभुः तत्राय यवृको नाम महान् दुष्टतमोऽसुरः भयङ्करानो मत्तो ग्रसन्निव महाबली पुच्छाकादेन च भुवं कम्भयन् हल दृष्ट्वा भयंकरं दैत्यं मुनिपुत्रा पलायिताः स आयुधानि गृह्याश्युत्तमृकं समताडयत अङ्कुशाखादमात्रेण पतितो भुविसोऽसुरः वमन्रक्तं निजं रूपमास्तिदश्चूर्णयन्द्रुमान् संहरं जीवसङ्खादान् दशयोजनविस्तदः स तदोस्तमिदे सूर्यययौ बालयुदो गृहम् बाला बालाप्राहुरुमायैते नेनाद्यनिगदोऽसुरः मृपो नामाङ्गुशाखादादशयोजनमायदः तानुवाजाद्रिजा रोषाद्व्रजन्तु निजमन्दिरं ततस्तद्वाक्यमागर्ण्यते बालास्वालयनान्ययुः इति श्री गणेशपुराणे क्रीडाखण्डे बकासुरवधो नाम पञ्चनवतितमोऽध्यायः ओम्